हि धर्मिणमात्मानं जानन् ज्ञानविदंवरः कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षत चेत्वं धर्मं विजानासि यदि प्राज्ञामतिस्तव अन्यकामाहि हि धर्मज्ञा कन्यका ज्ञमानिना अम्बानामेति भद्रं ते कथं सापहृता त्वया तां त्वयापि हृताम् भीष्म कन्यां नैषितवान्यतः भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः तव जातान्यपत्यानि सज्जनाचरिते पथि को हि भीष्म ब्रह्मचर्यमिदं वृथा यद्धारयसि मोहाद्वा क्लीबत्वाद् वानसंशयह नत्वहं त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् न हि सेविता वृद्धा य धर्ममब्रवीहि धर्ममब्रवीः इष्टं धत्तमधीतं च बहुदक्षिणाः सर्वमेतदपत्यस्य द्योशीं